अथर्वेदे षष्ठाष्टके तृतीयोऽध्यायः ॐषिणः कण्वा इन्द्रस्य गाथया मधे सोमस्य वोचत यश्रुविन्द्रमलर्षलिम् विप्रन्दासमहीशुवम् उग्रोरिणन्नपः निर्बुदस्य विष्णवम् लक्ष्माणम् रहत स्थिर कृशेतदिन्द्रवंस्यम् प्रतिश्रुताय वोधृषत्तूर्णाशन्न गिरेरथि बुभे सु शिप्रभूतये सघोरश्वस्य विव्रजम् मन्दानः सोम्येभ्याः पुरन्न शूरदर्शसि यदि मे रारणः सुत उक्ते वादथसेचनाः आरादुरस्वधागहि वयङ्घा आदे अविश्मसि स्तोतार इन्द्रगिर्वणः तन्नोचिन्नसोमपाः उत नः पितुमाभरसंरडो अवीक्षितम् मघबन्भूरिदेवसु उत नो गोमतस्कृतिहिरण्यवतो अश्विनाः किः संरभेमहि बृहदुःखम् हवामहे सुप्रकरस्तमूतये साधु कृण्वन्तमवसे यः संस्थेतिक्षदक्रतुरादीम् कृणोति वृत्रः चरित्रभ्यः पुरोगसु स नः शक्रश्चिदाशकद्दानवाङ्कन्तराभरः इन्द्रो विश्वाभिरूधिभिः यो राजो आयन्ता ब्रह्म हि स्थिरम् मृतनाशुश्रभोजितम् भूरेरीशा नमोजसा न गिरस्य शचीनान्य सोदृतानाम् न गिर्वक्ता न दादिति न सूनम् ब्रह्मणा वृणम्राशूनामस्ति सुन्दताम् न सोमो अप्रतापपे पन्य इदुपगाय पन्य उक्तानि ब्रह्मा कृणोतपन्य इत् पन्य आदर्दिरच्छता इत। सहस्राः वाज्यवृतः इन्द्रो यो यज्वनो वृथः विशोचरस्वथा अनुकृष्टीनामन्बाहुवाः इन्द्रपिबसुतानाम् पिबस्वधैनवानामुतयस्तु ग्रेसचाः उतायमिन्द्रजस्तव अतिहिमन्युषाविणम् सुशुभांसमुपारणे इमम् रातम् सुतम् पिब एतिस्रः परावत इह पञ्च जनाम् गति धेनाः इन्द्रावचाकषत् सूर्यो रश्मीयथाः सृजात्वाः यच्छन्तु मे गिराः निम्नमापो न सध्यग् अद्भर्य्य हि शिञ्च सोमम् वीराज शिप्रिणेः भराः सुतस्य पीतये य उद्नः फदिवम् भिनन्याहक्सिन्धोङ्रवासृजत् योगोषु भक्वम् धारयत् अहम् वृत्रवृचीशम और्णवापमही शुभम् हिमेनाविध्यदर्बुदम् रव उग्राय निष्ठुलेषाह्णाय प्रसक्षिणे देवत्तम् ब्रह्म गायत यो विश्वाहान्यभिव्रता सोमस्य मदे अन्धसः इन्द्रो ओ देवेषु चेतति यहत्या सधमाद्या हरीहिरण्यकेश्या वोढामभिप्रयो हितम् अर्वाञ्चन्तापुरुष्टुतप्रियमेहेधस्तुता हरीः सोमपेयाय वक्षतः वयम् धावन्त आपो न वृत्तपर्हिषः पवित्रस्य प्रस्रवणेषु वृत्रहन्तरि स्तोतार आसते स्वरन्दित्वा सुतेन रोमसो निरेक उक्षिनाः कदा सुतन्त्रषाण ओक आगम इन्द्रस्वब्दीभवंसदः कण्वेभिर्धृष्णवाधृषद्वाजन्दर्षिसहस्रिणम् विषङ्गरूपम् मघवन्विधर्षणे मक्षो गोमन्दमीमहे पाहि गायान्धसोमध इन्द्रायमेऽध्यादिथे यः सम्मिष्टो हर्योर्यः सुते सजाः वज्रीरथो अरण्ययाः यः सुव्यः सुदक्षिण इनो यो धृषितो यो वृतो यो अस्ति श्मश्रुषुश्रितः विभो दद्युम् नश्च वनः पुरुष्टुतः कृत्वा गौरिवशाकिनः क ईइम्वेदसुते स चापिबन्तम् कद्वयोदधे दधे न गमो नियमता सुतेगमो महांश्चरस्योजसा य उग्रः सन्ननिष्कृतः स्थिरो रणायसंस्कृतः यदि स्तोतुर्मघवा शृणबद्धेन्द्रो योषत्यागमत् सत्यमित्था वृषेजसि वृषज्योतिर्नो वृतः दृषाह्युग्रिषे परावतिवृषो अरुवापतिश्रुतः वृषणस्ते अभिषवो वृषारशा हिरण्यजे हि वृषारथो ओमघवन् वृषणा हये वृषा त्वम् शतक्रतो वृषा सोता सुनोतु ते वृषन् नृजे भिन्नाभर वृषाः ब्रिशा दधन् वे वृषणन्नदीश्वा तुभ्यम् स्थातर् हरिणाम् इन्द्रया नायमच्छाः मघवाः शृण्वद्गिरो ब्रह्मोक्था च सुक्रतो वहन्तु त्वा रथेष्ठा माहरयोरथयुजाः सवनानि वृत्रहन् अन्येषाय्याशतक्रतो अस्माकमद्यान्तमं स्तोमम् धिष्महामः अस्माकम् न हिषस्तवदो मम शास्त्रे अन्यस्य रण्यते यो अस्मान्वीर आनयत् इन्द्रश्चिद्घातदब्रवीत् स्त्रिया अशास्यम् उतो अहक्रतुम् रघुम् सप्ते एचिद्घा मदत्युदामिथुना वहतो रथम् एवेद्धोष्णमुत्तरा अधः पश्य स्वमोपरि सन्तराम् पादकौहर माते एकश प्रगौ दृशं श्रीः ब्रह्मा बभूविध एन्द्रया हिहरिभिरुमखण्डस्य सुष्ठुतिम् दिवो अमुष्यशासतोदिमै ययदि वावसो आत्वाग्रावापदम् इह सोमी घोषेण यच्छतु दिवो अमुष्यशासतोदिमयी ययदि वावसो अत्रापि नेमिरे एषा मुरान्नतोनुते वृताः दिवो अमुष्यशासतोदिमम् ययदि वावसो आत्ता कण्णा इहापसे भवन्ते वाचसातजे दिवो अमुष्यशासतोदिमम् ययदि वावसो तथा आमिते सुतानाम् वृष्णेन पो ऊर्वपाह्यम् दिवो अमुष्यशासतोदिमम् ययदि वावसो स्मत्परन्धिर्न आभे विश्वतो ओधीर्न ऊतयेः दिवो अमुष्यशासतोदिमञ्ज ययदि वावसो आ नोहो याहि महेमते सहस्रो देशताः मघ दिवो अमुष्यशासतोदिमञ्ज ययदि वावसो आर्ताहो तामनर्हितो दे भत्रावक्षतेड्याः दिवो अमुष्यशासतोदिवञ् ययदि वावसो आर्ताः मदच्युता हरेश्येनम् रक्षेव दिवो अमुष्यशासतोदिमनै जयति पावसो आया आयर्य आपरि स्वाहासोमत्स्य पीतयेः दिवो अमुष्यशासतोदिमनै जयति पावसो आ नो याह्युपश्रुत्युत्थे शुरणया दिवो अमुष्यशासतोदिमम् ययति पावसो सर्वोपैरासुनो गिसम्भृतैः सम्भृताश्वः दिवो अमुष्य शशासतो दिवं ययदि वावसो आहि पर्वतेभ्यः दिवो अमुष्यशासतोदिवं ययदि वावसो आनो गम्यान्यस्या आसहस्रा आशूरदर्द्रिः दिवो अमुष्य शासतोदिवं ययदि वावसो आदिशतानि च दिवो अमुष्यशासतोयसो आयदिन्द्रश्चलद्वहे सहस्रम् वसुरोचिषः ओजिष्ठमश्यम् वसुम् यदृध्रावातरम्भसो रुषासो ओरपुष्यदाः म्राजन्ते सूर्या इव पारा आवतस्य रातिषु द्रवच्चक्रे वनस्य मध्य आ अग्निनेन्द्रेण वरुणेन विष्णुनादित्यैरुद्रैर्वसुभिः स काभुवा स जोषसा पुरसा सूर्येण च सोमम् पिबतमश्विना विश्वाभिर्धेभिर्भुवनेन वादिना दिवा पृथिम् जाद्रिभिः स काभुवा स जोषसा पुरसा सूर्येण रसोमम् पिबतमश्विना विश्वैर्देवैस्त्रिभिरेकादशैरिहाद्भिर्मद्भिर्भृगुभिः स चाभुवा स जोषसा उषसा सूर्येण च सोमम् अश्विना जुषेछाहं यज्ञम् बोधतम् हवस्य मे विश्वे हरे समनावगच्छतम् स जोषसा स्तोमञ्जुषेधां युवशेव कन्यनाम् विश्वेहदेपौसवनावगच्छतम् सजोषसा उषसा सूर्येण चेशम् नो वोल्हमश्विना गिरो जुषेधामध्वरञ्जुषेधाम् विश्वेहदेपौसवनावगच्छतम् सजोषसा उष सा, सा सूर्येण चेशम् नो वोल्हमश्विना दारिद्रवेव पतथो वनेदुभसोमम् सुतम् महिषेवापगच्छथः सजोषसा उषसा सूर्येण चत्रुर्वर्तिर्यातमश्विना हंसाविपतथो अध्वगावि भसोमम् सुतम् महिषेवापगच्छथः स जोषसा उषसा श्येनापि पपतथो हव्यदातये सोमम् सुतम् महिषे वापगच्छथः स जोषसा उषसा सूर्येण च त्रिर्यातमश्विना विपृतम् चतुर्प्लुतम् चाच गच्छतम् प्रजाम् च धत्त्रविणम् च धत्तम् स जोषसा उषसा सूर्येण चोर्जन्नो धत्तमश्विना तेतम् च प्रस्तुतम् च प्रचावतम् प्रजाम् च धत्तन्द्रविणम् च धत्तम् सजोषसा उष सा सूर्येण चोर्जन्नो धत्तमश्विनातम् च मित्रिणः प्रजाम् च धत्तम् द्रविणम् च धत्तम् सजोषसा उषसा सूर्येण चोर्जन्नो धत्तमश्विना मित्रावरुणवन्ता उत धर्मवन्ता वरुत्तन्ता च ऋतुर्गच्छसोऽहवम् स जोषसा उष सा अङ्गिरस्वन्ता उत विष्पवन्ता मरुत्वन्दाज ऋतुर्गच्छथोहवम् सजोषसा उष सा सूर्येण चादित्यैर्यातमश्विना ऋभुवन्ता वृषणावाजवन्ता मरुत्वन्दाज ऋतुर्गच्छथोऽहवम् सजोषसा उष सा सूर्येण चादित्यैर्यातमश्विना ब्रह्मजिन्वतमुतजिन्वतन्ध्योः हतं रक्षां सिषेधतमीवाः सजोषसा उष सा, सा सूर्येण च सोमम् शृण्वतो अश्विना शत्रञ्जिन्वतमुतजिन्वतन्द्रेण हतं रक्षां सिषेधतमीवाः सजोषसा उष सासूर्येण च सोमम् शृण्वतो अश्विना धेनोर्जिन्वतमुत जिन्वतम् विशो हतम् रक्षांसिषेधतममीवाह स जोषसा उषसा सूर्येण च सोमम् सुन्वतो अश्विना अत्रेरिव शृणुतम् पूर्व्यस्तुतिम् श्यावाश्वस्य सुन्वतो मदच्युता स जोषसा उष सा अश्विना तिरोऽन्यम् सर्गाङ्गिव सृजतम् सुष्ठुतिरुपश्यावाश्वस्य सुन्दतो मदच्युता सजोषसा उषसा सूर्ये एणचाश्विनाधिरोऽन्यम् रश्मीव यच्छतमध्वराम् उपश्यावाश्वस्य सुन्दतो मदत्ुता सजोषसा उषसा सूर्ये एणचाश्विनाधिरोऽन्यम् अर्वाग्रथम् नियच्छतम् मधु आयातमश्विनागतमभस्युरुवा महम् हुवे धत्तम् रत्नानि दाशुषे नमो भागेऽप्रस्थिते अध्वरे नरा विवक्षणस्य पीतये आयातमश्विनागतमवस्विरुवा महम् हुवे धत्तम् रत्नानि दाशुषे स्वाहा कृतस्य द्रम्पदम् सुतस्य देवाबन्धसः यातमश्विनागतमवस्युर्वामहम् हुवे दत्तम् रत्नानि दाशुषे अविदासि सुन्दतो वृत्तवर्हिषास्ति भासो मम्मदायकं शतक्रतो यन्ते भागमधारयन्विश्वाश्रे हानः पृतरा उरुज्रयः समप्सुजिन्मरुत्वा इन्द्रत्पते प्राप स्तोतारम्नवत्त्वाम् विभासो मम्मदायकं शतक्रतो यन्ते भागमधारयन् विश्वा श्रेहानप्रतना उरुज्रयः समत्सुजिन्मरुत्वाम् इन्दु सत्पते ऊर्जा देवाङ्गभस्योजसात्वाम् विभासो मम्मदायकंसतक्रतो यन्ते एभागमधारयन् विश्वास्य हानः पृतना उरुद्रयः समप्सुजिन् मरुत्वा इन्द्र सत्पते जलिता दिवो जनिता पृथिव्याः पिबासो मम्मदायकम् शतक्रतो यन्ते एभागमधारयन् विश्वास्य हानः पृतना उरुद्रयः समप्सुजिन्मरुत्वान्द्र सत्पते जनिताश्वानाञ्जनितागवामसिपिपासो मम्मदायकं शतक्रतो यन्ते भागमधारयन् विश्वास्ये हारः पृतना उरुज्रयः स वत्सुन्मरुत्वान्द्रसत्पते अत्रीणां सोममद्रिमो महस्कृतिपि पासो मम्मदायकं यन्द्रे एभागमधारयन् विश्वासे हानः पृतना उरुज्रयः समप्सुतिन् मरुत्वा इन्द्रसत्त्वरे श्यावाश्वस्य सन्वतस्तथाः शृणु यथा शृणोरत्रेः कर्माणि कृण्वतः प्रत्र सदस्युमाविधत्वमेकैन्द्रढा स्यैन्द्रब्रह्माणि प्रेदम् ब्रह्मवृत्र तुर्येष्वापिथ प्रसन्वतश्यति पत इन्द्रविश्वाभिरुतिभिः मार्ध्यन्दिनस्य सवनस्य व्रत्रहन्ननेद्यपि बा सोमस्य वज्रिवः सेहा न उग्रपृतना अभिद्रुहस्यति पत इन्द्रविश्वाभिरोतिभिः माध्यन्दिनस्य सवनस्य व्रत्रहन् कराळस्य भुवनस्य राजशिषचे पत इन्द्रविश्वाभिरोतिभिः माध्यन्दिनस्य सवनस्य वृत्रहन्वनेद्यपि वा सोमस्य वज्रिवः सस्थावानाय वयसि त्वमे करिच्छ चेपत इन्द्रविश्वाभिरोतिभिः माध्यन्दिनस्य सवनस्य वृत्रहन्वनेद्यपि वा सोमस्य वज्रिवः क्षेमस्य च प्रयुजश्च त्वमीशिशेषचे पत इन्द्रविश्वाभिरोतिभिः माध्यन्दिनस्य सवनस्य वृत्रहन्ननेऽद्यपि वासोमस्य वज्रिवः क्षत्राय त्वमपसिनत्वमाविथशचेपत इन्द्रविश्वाभिरोतिभिः माध्यन्दिनस्य सवनस्य वृत्रहन्ननेद्यपि वासोमस्य वज्रिवः श्यावा स्वस्य रेफतस्तथा शृणोयराशृणोरत्रेः कर्माणि कृण्वतः प्रत्रसदस्यु माविथत्वमेक इन्द्रशाह्य इन्द्रक्षत्राणि वर्धयन् यज्ञस्य हि स्थलत्विदासस्तेवाजेषु कर्मसु इन्द्रा आग्तस्य बोधतम् तोषासा आरथया वा आवृत्राणा पराजिता इन्द्रा आग्देतस्य बोधतम् इदम् वा अम् मदिरम् मध्वत्रिभिर्नराः इन्द्राग्ने तस्य बोधतम् तुषेधा अञ्जविष्टये सुतम् सोमम् सधस्तुती इन्द्राग्ने आगतम् नरा इमा जुषेधाम् सपनायभिर्हव्यान्योहोः इन्द्राग्ने आगतम् नरा इमाङ्गा यत्र इन्द्रा आग्ने आगतम् नरातर्यावभिरागतम् रा, देवे भज्जेऽन्यावसो इन्द्रा आग्ने सोम पीतये श्यावाश्वस्य सम्बतोऽत्रे एणाम् शृणुतम् हवम् इन्द्राग्ने सोम पीतये हे वामऊतरे यथा हुवन्त मेधिराः इन्द्रा सोम आहम् सरस्वतीवतोरिन्द्राज्ञोरवो वृणे याभ्याङ्गा यत्र मृच्यते अग्निमस्तोष्यर्ज्ञ्यमग्निमीडा यजध्यै अग्निर्देवाङ्गनक्वर उभेहि विलसे कविरन्तश्चरति दोत्या अन्नवन्तामन्यके समे यग्नेरव्यसावचस्तनू सुशंसमेषाम् जरा आतीरराम् विश्वा आर्यो अरा आतीरितो युच्छन्ता पुरोरभन्दामन्यके समे अग्ने मन्मा आदितुभ्यङ्कम् घृतम् न युक्त्वा आसने स देवेषु प्रतिगिर्भित्तम् कृषिपूर्यशिवो दूतो विवस्वतो नभन्दामन्यके समे तत्तदग्निर्वयो ओदथे यथा आ यथा कृपण्यते ऊर्जावतिर्वसो नाम् सञ्चयोश्च मयो दधे विश्वस्यै देवहोत्यै नभन्तामन्यके समे सचिकेतसहीयसाग्निश्चित्रेण कर्मणा स होता शश्वतीनाम् दक्षिणाभिरभिवृत इनोति च प्रथिव्या अन्नभन्तामन्यके समे अग्निर्जाता अग्निः सद्रविणोदा अग्निर्वाराव्योर्नुते स्वा आहुतो न वीयसा नभन्तामन्यके समे अग्निर्देवेषु शम्भसु सभिक्षु यज्ञिया स्वा समुदा काव्याः पुरुश्वम् भूमे एव पुष्यति देवो देवेषु यो अग्निः सप्तमानुशश्रितो विश्वे एषु मागन्मत्रिपत्यम् नातुर्दस्यहन्तममग्नि यज्ञेषु पूर्यम् नभन्तामन्यके समे अग्निस्त्रीणि त्रिधातोऽन्याक्षेति विदधाः कविः सत्रीङ्ग्रे एकादशाह यक्षच्च विप्रयच्छ दो विप्रो दूतः परिष्कृतो नभन्तामन्यके समे तनु नो अग्न आयुषु त्वम् देवेषु पूर्ववस्वलेक इरज्यसे मापः परिश्रुतः परि यन्ति स्वसेतपो नभन्तामन्यकेशमे इन्द्राग्नेयुवं सुरः सहन् पादासथोरयिम् येन दृह्लासवत्स्वा वेणुचित्साहि शेव ह्यग्ने पवात इन्द्रहन्तामन्यकेशमे न हि वा महेथेन्द्रविद्यया महेशभिष्ठम् ज सा ते गेधसात ना मन के मध्यम भराे अधीक्षिताऊ कविपला कविपृ्यम सखेयते सन्धिमश्नुतरा ना मेसमे अभ्यर्चलफा कवलींद्रा य गिरा यजोर्विश्वभिदङ्गोः पृथिवी मह्यो उपस्थेऽभिभृतो सुरभम् तामन्यके समे परब्रह्माणि नभकवलिन्द्राज्ञिभ्यामिरज्यत या सप्त बुद्धमर्णभञ्जिम्भवा रमपोर्वृत इन्द्रईशा नवोजसारभम् तामन्यके समे अभिवृश्च पुराणवद्घृततेरिव पुष्पितमोजो दासस्य दम्भय वयम् तदस्य संहृतम् वस्मिन्द्रे एडविभजे महिरभन्तामन्यके समे यदिन्द्राग्नीजना इमे विह्वयन्ते तना गिरा अस्माकेभिरृभिरभयं सा आसह्याम पृतन्यतो वनुजाम वनुष्यतो नभन्तामन्यके समे यानुश्वेता भवो दिव उच्चरा त उपद्युभिः इन्द्राज्ञो रनौ रतमुहानायन्ति सिन्धभोजा तान्नभन् रामन्यके समे पूर्वेष्ट इन्द्रोपमातयः पूर्वे रुदप्रशस्तयः सूनो हिन्दस्य हरिवः वीरस्याप्रचोयानुसाधन्तनो धियो नभन् रामन्यके समे तं शिषेतासु भक्तिभिस्तेषम् सत्त्वान मृग्भ्यम् कुतोनुजिद्य ओजसा शुष्णस्याण्डानि भेदति जे सत्सर्वती रपो नभन्तामन्यकेतमे तम् हि सीता स्वद्धरम् सत्यम् सत्ता न मृत्ययम् ओहत आण्डा सुष्णस्य भेदत्यजैः सर्वति रपो नभन्तामन्यकेतमे एवेन्द्राग्निभ्याम् पितृवन्नबे यो बन्धादृङ्गिरः सार्यै विधातु नाशम् आपातमस्मान्वयम् स्यामपतयोरजीणा अस्मा ऊषु प्रभोतये वरुणाय मरुद्भ्योर्चाभिदुष्टरेभ्यः यो धीतामानुषाणाम् वश्मो गायि परक्षतिरहन्तामन्यके समे नाभागस्य प्रशस्तिभिरयः सिन्धो नामुपोदये सप्तस्व सासमध्यमो नभन्तामन्यके समे पक्षपः परिधस्वजेन्यो मा स्रो माय स विश्वम् परिदर्शतः तस्य वे नीरनु रतमुषस्तिस्रो अबद्धयन्नभन्तामन्यके समे यः कपुभो निधारयः पृथिव्यामधिदर्शतः माता पूर्व्यम् पतम् तद्वरुणस्य सत्यम् स हि गोपा इवेर्यो नभन्तामन्यके समे भुवनानाय उस्राणामपीच्या आवेद रामानि गुह्याः स कविः काव्याः पुरुपम् यौरिवपुष्यति नभन्तामन्यके समे यस्मिन् विश्वानि काव्या चक्रेणाभिनिवश्रिता त्रिरञ्ज्योति स पर्यतौ रजे गावो न संयुजे यजुजे अश्वाम् अयुक्षत नभन्तामन्यके समे य आस्पत्क आशये विश्वा आजातान्ये एषा परिधामा आनिमर्मृषद्वरुडस्य पुरोगजे विश्वे देवा अनुम्रतम् नभन्तामन्यके समे समुद्रो अपेत्य स्थुरोद्यामि वरो अतिनियरा असु यदुर्दधे समाजा <mí> अर्चिनाः पदास्तृणान्ना कमारुहन्नभन्तामन्यके समे यस्य श्वेता वि चक्षणातिस्रो भूमिरधिक्षितः त्रिरुत्तराणि पप्रतुर्वरुणस्य ध्रुवं सदः सप्तानामिरज्यति नभन्तामन्यके समे य श्वेताङ्गधिरिर्णिजश्चक्रे कृष्णाङ्गनूता स धम पूर्वम् ममेयः स्कम्भेन विरोदसे अजो नद्यामधारयन्नभन्तामन्यके समे अस्तभ्राद्यामसुरो विश्ववेदा अमिमीतपरिमाणम् पृथिव्याः आसे एतद्विश्वाभुवनानि सम्राट् विश्वेत्तानि वरुणस्य व्रतानि हे पावन्दस्वरुणम् रहन्तं नमस्याधे स न शर्म त्रिवरोऽम् उपस्थे इमाम् शिक्षमाणस्य देवक्रतुम् दक्षम् वरुणसंशिशाधि ययाति विश्वा आदुरितातरेम सुतर्माणवधिनावम् बृहेम आवाङ्ग्रावाणो अश्विनाथेभिरविप्राः अजुच्यभोः नासत्या यथा आवामत्रिरश्मिना गीर्भिर्विप्रो अजो हवेत ना सत्यासोमपेतजेन भन्तामन्यके समे हे बाबामह्व ऊतये यथा हुभन्त मेधिराः नासत्यासोमपीतजेन भन्तामन्यके समे इमे विप्रस्य भेदसोऽग्नेरस्रुतयज्वनः गिरस्तो मास ईरते अस्मै ते प्रतिहर्यते जातवेदोऽपि चर्षणे अग्ने जनामि सुस्तुतिम् आरोका इव खेदः दिग्मा अग्नेतवत्पिशाः दर्भिना निबुक्सते हरयो धूमके एतभोपातजोता उपद्यपे यतम् ते पृथगग्नजाः एतेत्येव पृथगग्नज इद्धासः समद्रक्षत कृष्णारजांसि वत्सुतः प्रयाणे एजातवे एतसः अग्निर्यद्रोधतिक्षमे धासि गृह्वान ओषधेरवप्सदग्निर्नवायते पुनर्यन्तरुणैरपि जिह्वाभिरहनन्नमदर्चिषाजनाभवन्दे अग्निर्वने एषु रोचते अप्सु अग्ने सधिष्ठवसौषधेरनुरुध्यसे गर्भे सञ्जा आयसे पुनः उदग्नेतपतद्धृतादच्चीरो चत आहुतम् निंसानञ्जुह्वो मुखे वृक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे स्तोमयीर्विधेमाग्नये उत त्वा नमसा वयं हो तर्वरेण्यक्रतो अग्ने समिद्भिरेमहे उत त्वा महे त्वम् ह्यग्ने अग्निना विप्रो विप्रेण सन्ससा सखा सख्याः समिध्यसे सत्तम् विप्राय दाशुषे रजिन्देः सहस्रिणम् अग्ने वीरवतेमिषम् अग्नेभ्रातः सहस्कृतरोहितस्प्रशुचिभूरत इमम् स्तोमञ्जुषः समे उतत्रामस्तुतोभाश्राय प्रतिहर्यते गोष्ठङ्गाव इवाशत तुभ्यन्ता अङ्गिरस्तमविश्वाः सुक्षितयः पृथक् अग्ने कामायमिरे अग्निन्धेणो मेधिरासोऽपि प्रश्चिताः सद्याजहिन्मिरेवामग्मेशु वाजिनन्दन्वाना अग्ने अद्धरम् वह्निम् होतारमीलते पुरुत्रा हि सदृङ्गसि विशो विश्वा अनुप्रभुः समत्सप्ता हवामहे तमे एलिष्वय आहुतोग्निर्विभ्राजते घृतैः इमम् न तन्ता वयम् हवामहे शृण्वन्तम् दातवे एतसम् अग्नेघ्नन्तमपद्विषाः विषाम् राजा नमद्भुतमध्यक्षम् धर्मणामिमम् अग्निमे एलेस उश्रवत् अग्निम् विश्वायुवेपसंवर्यन्न वाचिनम् सप्तिन्नवा जयामसि धन् वृद्धाण्यपद्विशोदहं रक्षांसि विश्वाः अग्ने तिग् दीरिः यन्पाजना जनाः स इन्धते महृश्वरम् गिरस्तम अग्ने सबोधि मे पचाः यदग्नेदिजा अस्यप्सुजावासहस्कृत तन्तागेर्भिर्हवामहे तुभ्यङ्घेत्ते जना इमे विश्वा सुक्षिदयः पृथक् धासिं हिन्वन्द्यत्तवे ते घेदग्ने स्वाध्योहाविश्वा नृचक्षसः परम् तस्यामदुर्गः अग्निम् पुरुप्रियं शीरं क्षीरम् वावकशोचिषम् हृद्धरमन्द्रेऽभिरेमहे स्वमग्ने पिभावसु सृजन् सौर्योदरष्टिभिः शर्धम् तमांसि जिघ्से तत्ते एषः स्वई महेदात्रम् यन्नोपदस्यते तदग्नेवार्यम्वसु समिहाग्निन्दुवस्यत घृतैर्बोधयतातिथिम् आस्मिन्हव्याजुहोतन अग्ने स्तोमञ्जुषस्व मे वर्धस्वानेन मन्मना प्रतिसोक्तानि हर्यनः अग्निन्दूतम् पुरोदधे हव्यवाहमुपब्रुवे देवाम् आसादयादिह मूर्ते ए बृहन्तो अर्चयः समिधानस्य दीदिवः अग्ने ए शुक्रास ईरते उमर्त्वाजुह्वो ओ, ओ, ओ, ओ, ओ मम हृताचिर्यन्तो हर्यत अग्ने एहव्यायुषस्वनः मन्द्रम् भोतारभृत्विजम् चित्रभानुम् विभावसुम् अग्निमे एडेस उश्रवत् रत्नम् भोता रमेड्यञ्जुष्टमग्निम् कविक्रतुम् अद्धराणामभिश्रियम् विषाणो अङ्गिरस्तमेमाहव्यान्या अनुषक अर्ग्ने यज्ञन्नजतुथा समिधान उसन्त्यशुप्रशोच इहा वः चिकित्त्वा दैव्यञ्जनम् विप्रम्भोतारमद्रुहम् धूमके हेतुम् विभावसुम् विज्ञानाहङ्गेतुमीमहे अर्ज्ञे निपाहिनस्तम् प्रतिष्मदे परिषदः भिन्ध्यद्वेषः सहसृत अग्निः प्रत्ने न मन्मनाशुम्भावस्तम्भां स्वाम् कविर्मिप्रेण वारुधे ऊर्जोनपारमाहुवेग्निम्बावकशोचिषम् अस्मिन् यज्ञे स्वध्वरे स नो मित्रमहस्तमग्ने शुक्रेण शोचिषा देवैरासत्सिबर्हिषि अग्निम् तन्वो ओदमे देवम् अर्तः पर्यते तस्मा इद्ये एत यद्वसो अग्निर्मोर्धादिवः कुत्पतिः पृथिव्या अयम् अपां रेतांसि चिन्वते उदग्नेषु च यस्तव शुक्राभ्राजन्त ईरते तव ज्योतेऽंश्यर्चयाः सोदास्यान्तवशर्मणि तामग्ने महेषिणः स्ताम् हिन्वन्ति चित्तिभिः त्वाम् वर्धन्तु नो गिराः अदर्थस्य स्वधावतो दूतस्य अग्नेः सक्षस्य बोधिनः यदग्नेस्या महान्तम् त्वम् वा घास्याहम् स्युष्टेः सत्या इहाशिषाः सर्वसुपतिर्हि कमस्यग्ने विभावसुः स्यामते सुमतावपि अग्नेः धृतव्रतायते समुद्राये वसिन्धवः यो वा श्रास ईरते युपानम् विष्पतिम् कविम् विश्वादम् अग्निंशुम्भामिमन्मभिः यज्ञानाम् रथ्ये भजम् दिग्वजम्भाजपीलवे स्तोमै भाग्नये अयमग्ने अपि चरिता भूतुसञ्च तस्मै पावकमृळय धीरो ह्यस्य प्रो नजाग्रभिः सदा अग्नेः दीदय सिद्धे पुराग्नेः दुरितेभ्यः पुरा मृध्रेभ्यः कवे रण आयुर्वसोतिरा आघाये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक येषामिन्द्रोजुपासखा रहन्निग्भये येषाम् भूरिशस्तम् पृथुस्वरोः येषामिन्द्रोजुपासखा अयुद्ध विद्युधा वृतम् शूराजति सत्तभिः येषामिन्द्रोजुपासखा आबुन्दम् वृत्रहारते जातः पृच्छद्भि मातरम् क उग्राह्येह शृण्विरे प्रतित्वाय वसीवदद्गिरा वप्सोरयोऽधिषत् यस्ते उत त्वम् मघवन् शृणुजस्ते वष्टिमवक्षि तत यद्वीणयासि वेणुतत् यताजीयात्या जिकृतिन्द्रस्वश्वजुरुपा रथे तमो रथेना विशु विश्वा अभियुजो वज्रिन्विश्वथा बृह भवाः शुश्रवस्तमः अस्माकम् सुरथम् पुर इन्द्रः कृणोतु सातये नयन् धोर्वन् विधूर्तयः वृद्यामते परिद्विषोरन्देशक्रदावने कवे मेदिन्द्रगोमतः शनैश्चिद्यन्तो अद्रिवोश्वावन्तश्च तग्मिनाः विवक्षणा अनेहसाः ऊर्ध्वाहिते एवे दिवे सहस्रा आसूदृता आशता चरितृभ्यो अविमम्भते विद्माहित्वा आ धनम् जयमिन्द्र दृढाचिदारुजम् आदारिणयथा गजम् प्रपुहञ्चित्पागवे मन्दन्तु दृष्टविन्दवः आप्त्वा आपणीय देमहे यस्ते एरेवाम् अदा तस्य नो वेद आभर इम उत्पा विचक्षते सखाय इन्द्र सोमिनाः उष्टावन्दो यथा पशुम् उदत्वा बधिरम् भजम् उददेहवामहे यच्छुश्रूया इमम् भवन् दुर्मर्षन् च क्रिया उता भवे एतापिर्नो अन्तमः यच्छिध्यते अपि व्यथिर्जगन्दाम् सो अमन्महे गोदा इन्द्रबोधिनः आत्वा आरम्भम् नीव्रजोरलभ्माशवसस्पते पुष्मषित्वा सतस्थः स्तोत्रमिन्द्रायगायतपुरुनृम्नाय सत्त्वने न गिर्यम् वृण््वते युधि अभित्वा आवृषभा सुते सुतम् सृजामि पीतजे रम्भाव्यश्नु हेमतम् मात्वा आभोरा अविश्य मार्गे इम् ब्रह्मद्विषो मनः महे मन्दम् राधसे सरो गौरो यथापिब या वृत्रहापरावति स नानवाचुज्युवे ता संसत्सुप्रवोचत अपि बत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे अत्रादेष्ठपौंस्यम् या आनट्तुर्वणेश मे तरणिम् भोजनानां त्रदम् वाचस्य गोमतः समानमुप्रशंसिषम् बुभुक्षणम् न वर्तव उक्थेषु तु ग्र्यावृथम् इन्द्रम् सोमे आसुते यः क्रन्दसि द्वियोऽन्यम् त्रिशोगाय गिरिम् पृथुम् गोभ्यो ओगातुम् निरेतवे यद्दधिशे मनस्य सिमन्दानः मा तत्करिन्द्रमृळया दभ्रञ्चिद्धित्तावतः कृतम् शृण्वे अधिक्षमे जिगात्विन्द्रतेमनाः तवेदुताः सुकीर्तयो सन्नुतप्रशस्तयः यजीन्द्रमृळयासिनः मा न एकस्मिन्नागसिमाद्रयोरुतत्रिषु वधेर्माशु रभूरिषु विभयाहि तावत मा सुशो न विदेवा पुत्रस्य प्रभो वसो आवृत्तद्भूतु ते मनाः को नु मर्यामिथितः सखा सखायामब्रवेत् यः को अस्मदेशते एवारे वृषभा सुते सिन्भोर्यावयः स्वघ्नेव निवताचरन्न आत एतावचोयुजाहरे गृभणे सुमद्रथा यदे ब्रह्मभ्य इद्वदाह िन्धि विश्वापद्विषः परिबाधो वो जहे मृधाः वसुस्पार्हन्तदा भर यद्वीणाविन्द्रयत्स्थिरे यत्परुषा आने परा आभृतम् वसुस्पार्हन्तदा भर यस्य ते विश्वमानुषो भूरेर्दत्वस्य वेदते वसुस्पार्हन्तदा भर इति षष्ठाष्टके तृतीयोऽध्यायः